हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे पञ्चत्रिंश सर्गः बाल्यवता रावणस्य श्रीरामेण सह सन्धिकरणाय प्रबोधनम् तेन शङ्कर विमेश्वरेण धीरि शब्देन नादिना उपयाति महाबाहु रामपर तम निनाद निशम्यथ रावण राक्षसेशर मुहूर्तम ध्यान सचिवान्भ्युदीक्षत अथ सचिवान् ते सर्वाष्य रावण सभांसर्वाच महाबल जगत्सन्तापन क्रूर अगर्जन राक्षसे रणम् सागरस्यास्य विक्रमम् बलपौरुषम् यदुक्तवन्तो रामस्य भवन्तस्तन्मय श्रुतम् भवतश्चाप्यहम् वेद्मि युद्धे सत्य पराक्रमान् तूष्णैका नैक्षतोऽन्योन्यम् विदित्वा रामविक्रमम् तत तु माल्यवान् नाम रक्षसः रावणस्य वच श्रुत्वा माता महो ब्रवीत् तोयू स्वभाविनी तो यो राजा राज्यन्नयानुगः चरमैश्वर्यम् अनि कुरुते वशे सन्दधानो हि कालेन विगृह्णन् स्वपक्षे वर्धनम् कुर्वन् मह दैश्व हर्यमश्नुते हीयमानेन कर्तव्यो राज्ञा सन्धि समेन च न शत्रुमवमन्येत जायान् गुर्वीत विग्रहम् तन्मह्यं रोचते सन्धि स रामेण रावण यदर्थमभियुद्धोऽसि सीता तस्मै तस्य देवः सर्वे गन्धर्वाच जयेषिणः विरोधं मां गतगमस्तेन सन्धिस्ते तेन रोचताम् अश्रूयद्भगवान् दक्षौ द्वौ एव हि पितामह सुराणाम् असुराणां च धर्माधौर्म तदाश्रमय तदाश्रयो धर्मो हि श्रूयते पक्ष अमराणाम् अधर्मो रक्षसाम् पक्षो हसुराणां च धर्मो वै ग्रसते अधर्मम् यदा कृतम् अभूदयुगम् अधर्मो ग्रसते धर्मम् यदा तिष्ठ प्रवर्तते तत् त्वया चरता लोकान् धर्मोऽपि नियतो महन् अधर्म प्रगृहीतश्च तेनास्मद्बलिनः परे सप्रभात् प्रवृद्धसे अधर्मो हि घ्रतसेहिनः विवर्धयति पक्षं स च सुराणां सुरभावनः विषयेषु प्रसक्तेन यत्किञ्चित् कारिणि त्वयः ऋषीणाम् अग्निकल्पानाम् उद्वेगो जनितो महन् तेषाम् प्रभावो दूर्धर्श प्रदीप्तः पावकः तपसा भावितात्मानो धर्मस्यानुग्रहे रपः मुख्य यज्ञे यजन्त्येते तैश्चर्यत्ते द्विजातयः जुहत्यग्नि च विधिवे वेदाशोच्चैरधीयते अभिभूय च रक्षासि अभिभूय च रक्षासि ब्रह्मघोषानुदीरयन् दिशो विप्रदृता सर्व स्तनै स्नोरिवोष्णगे ऋषीढाम् अग्निकल्पानाम् अग्निहोत्र समुत्थितः आदत्ते रक्षसाम् तेषु धूमो व्याप्यः दिशो दश तेषु तेषु च देशेषु पुण्यष्वेव धृव्रतैः चर्यमाणम् तपस्तीव्रम् सन्तापयति देव दानवयक्षेभ्यो गृहीतश्च वरस्तय मनुष्या वानरा वृक्षाय गोलाङ्गूलामः बल बलवन्त ह्यागम्य गर्जन्ति दृढ विक्रमः उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधान् बहून् विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ी तनिता गुर्वा मेघा प्रति भयङ्करः शोणते ना नाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ऋदतां वाहनानां च प्रपञ्च श्रु बिन्दव रजोध्वता विवर्णा न प्रभान्ति यथा व्याला गोमायमो गृध्रा पाष्यन्ति च सुभैरवम् प्रविश्य लङ्कामारामे सम समवाया च कुर्वते कालिका पाण्डुरैदन्तैः प्रसन्त्याग्रतस्थिता श्रियस्वप्ने च मुच्नन्त्यो गृहाणी प्रतिभाष च गृहाणाम् बलिकर्माणि श्व न पर्यपभुञ्जते गोषु प्रजायन्ते मूषकनकुलेषु च मार्जारादीपि सार्धं सुकर शुनकै सह किन्नरा रक्षसे चापि समयुर्मानुषै सह पाण्डुरा रक्तपादाश्च भेग कालचोदितः राक्षसा मां विनाशाय कपोताः विचरन्ति च चीचे कोटेति वासन्त्य चारिका विष्मसु स्थितः पतन्ति ग्रथिता चापि निर्जिता कलहैषिभिः पक्षिणश्च मृगाः सर्वे पश्चादित्यं रुदन्ति ते कराले विकटो मुण्ड पुरुषः कृष्णपिङ्गलः कालो गृहाणि सर्वेषां काले काले न्वपेक्षते एतान्य दृष्टानि निवित्तानि उत्पतन्ति च वेष्णम् मन्य महे रामम् मानुषम् रूपमाश्रितम् न हि मानुषमात्रोऽसौ राघवो येन बद्धः समुद्रे च सेतु स परमाद्भुतः पुरुष नरराजेन सन्धिम् रावण ज्ञात्वावधार्य कर्माणि प्रियता मायतिक्षमम् इदं वच तस्य निगम्य मारवन् परीक्ष रक्षोऽधिपतेर्म न पुनर् अनुत्तमेषु तम पौर्जो बलि बभूव सूक्ष्णिं समवेक्ष्य रावणम् पञ्च त्रिंश श्री सीता रामचंद्र अर्पण मतू